श्रीमद्भागवत् महापुराणं पञ्चमस्कन्धः अथ षोडशोऽध्यायः भुवन्कोष्कावर्णं राजोवाच उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्य सपदि यत्र चासो ज्योतिषां गणेशचन्द्रमावासः दृश्यते तत्रापि प्रियं दशरथ चरणपरिखातैः सप्तभिः सप्तसिन्धव उपक्लिप्ता यत एतस्याः सप्तदीपविशेषविकल्पस्त्वया भगवन् खलु सूचितम् एतदेवाखिलमहं मानतो लक्ष्मणतस्य सर्वं विजिज्ञासामि भगवतो गुणमये सूलरूप आवेशितं मनोजगुणेऽपि सूक्ष्मं आत्मज्योतिषी परे ब्रह्मणि भगवति वासुदेवाख्ये सममावेशितुं तदहैतद् गुरोर्हस्य अनुवर्णयितुमितिरिशिर्वाच न वै महाराज भगवतो मायागुणविभूतेः काष्ठां मनसा वचसावाधिगन्तो मलं विवृधायुषापि पुरुषस्तस्मात् पुधान्ये नैव भूलोकविशेषम् नामरूपमान नामरूपमानलक्ष्मणतो व्याख्यास्यामः यो वायं दीपकुवलयकमलकोशाभ्यन्तरकोषो नियतयोजनविशाल समवर्तुलो यथा पुष्करपत्रं यस्मिन्नववर्षाणि नवयोजनसहस्रायामाणि नष्टभिर्मर्यादागिर्भि सुभिन् भक्तानि भवन्ति एषां मध्ये इलावृतं नामाभ्यन्तर्वर्षं यस्य नाभ्याम् अवविस्थितः सर्वतः सौवर्णकुलगिरिराजो मेरुद्वीपायां मसमुन्नाः कर्लिकाभूतकुवलयकमलस्य मूर्धने द्वात्रिंशत्सहस्रयोजनं विततो मूले षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः उत्तरोत्तरे लीलावृतं नील श्वेतसिंहवानिति त्रयो रम्यक हिरण्मयं गुरूणां वर्षाणां मर्यादागिर्य प्रागायतां उभयत दावधयो हृस्र पृथव एकैकस पूर्वस्माद्पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव शसन्तीम् एवं दक्षिणे नीलावृतं निषधो क्षेमकूटो हिमालय इति प्रागायता यथा लीलादयोतुं युतयोजनोत्तेधा हविर्वर्ष किं पुरुषं भारतानां यथा सङ्ख्यं तथैवृतम् अपरेण पूर्वेण च माल्यवद्गन्धं मादनावानील निषधायतौ त्रिसहस्रं पप्रसं प्रथतु केतुमालभद्राश्वयोसीमानं विदधाति मन्दरो मेरुमन्दर सुपार्श्वकुमुद इत्ययुतयोजनं विस्तारोन्नाहा मेरोश्चतुर्दिशम् अवष्टभ्य गिरय उपक्लृप्ताः चतुर्श्वेते सुूत जम्बूकदम्बन्य गुरु धाश्चत्वार पादप्रवरा पर्वतके केतव इवादिसहस्रयोजनोन्नास्तावद् विटप विदत तत् योजन्तरीणाः तदा चत्वार पयो मध्ये क्षूरं तमिष्टजलायसिदेवकणायोगेश्वर्याणि उप, स्वभावान् स्वाभावि स्वाभा काली भरतर्षव धारयन्ति देवोद्यानानि च भवन्ति चद्वारि नन्दनं चैत्रसं वैभ्राजकं सर्वतो भद्रमिति येष्वामरपरिविलास सुरं दलनार्ललां यूथपत उपदेवागणैरुपगीयमान महिमान किल विहरन्तीं मन्दरो सङ्ग एकादशतयो जनो तुङ्गदेवच्युत शिरसो गिरिशिखरस्थूलानि फलानि अमृतकल्पानि पतन्ति तेषां विसर्यमाणानाम् अति मधुरसुरभि सुगन्धे बहुलारुणं रसोदेन नाम मन्दरगिरीशिखरान्निं पतन्ति पूर्वेणेलावृतम् उपप्लावयति यदुपं ज्योषणाद्भवान्या अनुचिचरीणां पुण्यजनवधूनाम् अवयवस्पर्श सुगन्धवातो दशयोजनं समन्तान् अनुवासयति एवं जम्बूफलानाम् अत्यज्य नाम अनस्ते अनस्ति प्रायाणाम् अभिकाय लिभानां रसेन जम्बूनाम नदी मेरुमन्दरशिखराद् अवितयोञ्जनादं वनितले निपतन्ति दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति तावद्भयोरपि रोधशौर्यामृत्तिका तद्रसेनानुविद्यमानं वायुकर्वायर्कसंयोगविपाकेन सदा मरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवते। यदुभवा वा विविधादयः स युवतीभिर्मुकुटं कटककटिसत्राद्याभरणरूपेण खलु धारयन्ति यस्तु महाकदम्बसुपार्श्वनिरूढेयास्तस्य कोटरेभ्यो विनिश्रिताः पञ्चायाम् अपरिणाहाः पञ्चमधुधाराः सुपार्श्वं शिखरान् पतन्त्योपरेणात्मानमिलावृतमनो मनुमोदयन्ति या सुपयोज्यानानां दुःखनिर्वासितो वायुः समन्ताच्छतयोजनमनुवासयति <laughs> एवं कुमदनिरूढो य सतवंशो नाम वटस्तस्य स्कन्धेभ्यो नीचीनाः पतोदधिम् अधुहृतगूढान्नाद्यम्बरसय्यासनाभरणादय सर्व एव कामदुघानद नदाः कुमुदाग्रान् पतन्तमुद्धरेला वृद्धमुपयोजयति यानुपजुषाणानां न कदाचिदपि ब्रह्म प्रजानां विलिपतीतक्लं क्लं, क्लं स्वेद दौर्गन्ध्यजरामयमृद्योशितोष्णवैष्णं वैष्णवर्योपसर्गादयस्तावं तापविशेषा या भवन्ति यावज्जीवं सुखं निरतिशयमेव कुरङ्गकुरकुसुं कुसुं भवैकं कचिद्रिकूटशिशिरपसङ्गचकनिषन्धसि शिनिवासकल्पि सङ्खवैदुर्य जारुद्धिहं सर्षम्भनागकालं जरं नदा नारदादयो विषतिं गिरयो मेरोह कर्णिकाया इव केसरभूता मूलदेशे परितौ पक्लृप्ताहं जठरदेव कुटौ मेरुं पर्वेणाष्टादशयो जनसहस्रमुद्गायतौ द्वे सहस्रं पृथितुङ्गौ भवतः एवम् अपरेण पवनपार्याद्रौ दक्षिणेन कैलासकरवीरौ प्रागायतावेवमुद्रतश्री सिंहं मकरावन्तभिरेतैपरीस्थितोऽग्निरिवं परितस्य काश्री काञ्चनगिरिः नेरो मूर्धरी भगवत् आत्मयोनिर्मद्यत उपक्लब्धां पुरीमयुतयोजनसाहस्रीम् समचतुरस्रां सा च कौम्भिं वदन्ति तामनुपरितो लोकपालानाम् अष्टानां यथा दिशं यथा रूपं तुल्यमारेण पुरोष्टावपुन्दुपक्लिप्ता इति श्रीमद्भागवते महापुराणे प्रहंसां सहितायां पञ्चमस्कन्दे भुवनकोशवर्णनं नाम षोडशोऽध्यायः